श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धम् अथ विंशोऽध्यायः अन्य च दीपो तथा लोकालोकपर्वत्कवर्णन् श्रीशुकुवाच अथ परं लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते जम्बूदीपोऽयं यावन्तीं प्रमाणविस्तारस्तावताच्छारो दधिना परिवेशितो यथा निर्जम्बाख्येन लवणो दधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा प्रां बाह्योपवनेन प्लक्षो जम्बुप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरूपास्ते सप्तजीवस्तस्याधिपतिः प्रियवतात्मजम् इद्मज्जिह्व स्वं दीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्यम् आत्मजेभ्यम् आकालय्य स्वयमात्मयोगेनोपरराम शिवं यवसं सुभद्रं शान्तं थेमृतम् अभयमिति वर्षाणि ते सुगीर्यौ गिरयो नद्यश्च सब्दैवाभिज्ञाताः मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान्सुपलो हिरण्यष्ठिवों मेघमाल इति सेतुसुशैला तरुणानिम्नाङ्गिलश्री सावित्री सुप्रभाता जितम्भरा सत्यंभरा इति महानद्यः यासां जलोपस्पर्शनं वसूतरजसन्तमसो हन्धपतङ्गोऽध्वायन् सत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोप तम् अदर्शनं प्रजाना स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते तत्यस्य विष्णोरूपं यः सत्यस्य सत्यस्तस्य ब्रह्मणः अमृतस्य च मृत्योश्च सूर्यमात्मान मीमहीति रक्षादिषु पचसु पुरुषाणाम् आयुरिन्द्रियं मोजः सहो बलं बुद्धिविक्रम इति च सर्वेषामौत्पत्तिकी विशेषेन वर्तते तक्षस्वसन्मालेन ने ॐ नेक्षूरसोदेनावृतो यथा तथा दीपोऽपिन्थाल्मलो द्रुगुणविशालशमालेन सुरोदेनावृतपरिवृङ्क्ते यत्र ह वैसाल्मलीप्लक्षायां माम् यस्यां वावकिल निलयं माहुर्भगवत् छन्दसुतपतत्रीराजस्य साद्विपहूतये उपलक्ष्यते तद्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहु ससुतेभ्य सप्तभ्यस्तन्नामालि सप्तवर्षाणि बभजस्वरोचनं सौमनश्यं रमणकं देवं देववर्षम् पारिभद्रमाप्यायनम् अभिज्ञातम् इति तेषु वरसा द्वयो नद्यश्च शब्दैवाभिज्ञाताः स्वरस ससशृङ्गो वाम दैव कुन्दो मुकुन्द पुरुं पुष्पवर्षः सहस्र सुतिरिति अनुमतिशनिवालीं सरस्वती कुहूरजनी नन्दा राकेति तद्वर्षपुरुषा श्रुतधर्वीर्यं धरं वसुन्धरे सन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते सगोऽपि पितृ पितृदेवेभ्यो विभजन् कृष्णशुक्लयो प्रजानां सर्वासां राजान्धसोमो न आसीत्वति एवं सुरोदान्तगुणः समादेनावृतोक्षितोदेन यथा पूर्व कृष कृतद्वीपो यस्मिन् कृतस्तम्भो देव कृतस्तद्वीपीन् जलने इवापर इवापरः स्वसपन् सपरोञ्च विराजयति तद्दीपतिं प्रव्रतो राजन्हिरण्यरेतान्नाम स्वं दीपं सप्तव स्वपुत्रेभ्यो यथा भागं विभज्य स्वयं तव आतिष्ठतं वसुवसुदारन्द्रिणरुचिनावि गुप्तस्तुत्याव्रतविविक्तवामदेव नामभ्यः तेषां वर्षेषु सीमा गिर्यो नद्यस्याभिज्ञाताः सप्तसप्तैव चक्रश्चतुः कपिलश्चित्रकूटों देवालीक उर्धरो माध्रमिन इति रसकुल्या मधुकुल्या मित्रबिन्दा श्रुतिविन्दा देवगर्भाघृतच्युतां मन्त्रमालयति यासां पयोभिः कुशद्वीपौ कुशकुशलकोविदाभि युक्तकुलकं संज्ञा भगवन्तं जातवेदस्वरूपिणं कर्मकौशलेन परश्च ब्रह्मण साक्षाज्जातवेदोऽसि हव्यवादेवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति तथा घृतोदाद्बहि कौञ्चद्वीपो द्विगुणः समालेन चिरोदेन परित उपक्लिब्धो वृतो यथा कुशलद्वीपो घृतदेन यस्मिन् कौञ्चो नाम पर्वतराजो द्विपलाभनिवर्तक आस्ते योऽसौ गुहं बृहणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासीतमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव तस्मिन्नपि प्रैवृतो घृतपृष्टो नामीम् अधिपतिः स्वे द्वीपे वर्षणि सप्त विभज्यते सुपुत्रनामसु सप्त रिक्धानान् वर्षपाण्डिवेश्य स्वयं भगवान् भगवत् परं आत्मभूतस्य हरे चरां चरणारविन्दं बुभजगाभव